न्पूर्वयानिविदाहोमहे वयं भगं मित्रमदितिन्द क्षमश्रिधम् हैयमणं वरुणं सोममश्विना सरस्वतीनः सुभगामयस्कर वया निविदाहोमहे वयं भगं मित्रमदितिन्दक्षमश्रिधम् अय्यमणं वरुणं सोममश्विना सरस्वतीनः सुभगामयस्कर तान्पूवर् वयानिविदाहुमहे वयं भगं मित्रमदितिन्द क्षमश्रिधम् हय्यमणं वरुणं सोममश्विना सरस्वतीनः सुभगामयस्कर